हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकिरामायणे अयोध्याखण्ड एकोनषष्टितमः सर्गः श्रीरामस्य शोकेन समेषां जलचेतनानाम् अयोध्यापुर्याश्च दुरवस्थाया वर्णनम् राज्ञोदशरथस्य विलापश्च मम त्वस्वा निवृत्तस्य न प्रावर्तन्तवत्मनि कूष्णम् अश्रु विमुञ्चन्तु रामेशम् उभाभ्याम् राजपुत्राभ्याम् अथ कृत्वाहम् प्रस्थितो रथमासाय तद्दुःखम् अपि दा धारयन् गुहेन सार्धम् तत्रैव स्थितोऽस्मि दिवसान् बहुन् आश्रिय यदि माम् राम पुनः विषये महाराज महाव्यस न कर्चितः अपि वृक्षा परिम्लान पुष्पाङ्कुरकोरकः उपतप्तो रकानद्य पल्लवानि सरन्ति च परिशिष्ट पलाशानि वनानि उपवनानि च न च सर्पन्ति प्रचरन्ति च रामशोकाभिभूतम् तन् निष्कोजम् अभवत् वनम् लीन पुष्करपत्रास नद्यस्य कलुषोधकः सन्तप्त पद्मापद्मिन्यो लीन मीन विहङ्गमः जलजानि च पुष्पाणि माल्यानि स्थलजानि च नातिभान्त्यल्पगन्धीनि फलानि च शून्यानि प्रवीण विहगानि च न चाभिरामानारामान् रामा पश्यामि मनुजश्च भय प्रविशन्तम् अयोध्यायाम् न कश्चिदभिनन्दति नर रामम् अपश्यन्तु निःश्वसन्ति मुहुमुहुः दृष्ट्वा विनारामम् विहागतम् दूरादश्रुमुखः राजमार्गे गतो जनः विमाने प्रासादै अवेक्ष्य रथमागतम् हाहाकार कृता नार्यो रामा दर्शन कर्चितः आयतै विमलै नेत्रैः आशीर्वेद परिप्तै अन्योन्नम् अभिवीक्षन्ते अव्यक्त मातरा मित्राणां न उदासीन जनस्य च अहम् आर्ते तया कञ्चित् विशेषं नोपलक्षये नृष्ट मनुष्या च दीननाय तुरङ्गमः आट्टेश्वर प्रम्लानन्द महाराज राम प्रव्राज न तु पुत्रहीनेव अयोध्या प्रतिभाति मे सूत वचनम शुवा वाचा परम दीनय बापोपहतया सूत इदम वचनमीत कैकय्यान कै पापाजन भवै मैया मंत्रकुशल वृद्ध सह समित नृद्धि चाप्य मंत्री गये मयार्थं संमोहात् स्त्री हेतो सहसा भवितव्ये तदा इदं वा व्यसनं महेत् विनाशाय प्राप्तं सूत्रयदृच्छय सूत्रयद्यस्यते मयापि सुकृतं कृतं सम्प्रापय शुभां रामम् यद्यद्यापि मम एवाज्ञा निवर्तयितु राघवम् न शक्ष्यामि विना रामम् मुहूर्तम् अपि जीवितुम् अथवापि महाबाहु गतो दूरम् भविष्यति मामेव रथमारोप्य शीघ्रम् रामाय दर्शय वृद्धदन्तो महेश्वास क्व सो लक्ष्मणपूर्वजः यदि जीवामि साध्वनम् पश्येयम् सीतया सह लोहिताक्षम् महाबावम् ताम् रामं यदीन यदि न पश्येयम् गमिष्यामीयमक्षयम् अतो नु किम् दुःखतरम् योऽहम् मिक्षा कुनन्दनम् इमाम् अवस्थामापन्नो नेह पश्यामि राघवम् हा राम रामानुज हावै देही तपस्विनी न जानेत दुःखेन म्रियमाणम् अनाथवत् स राजा दुखेन भुजम् अर्पीत चेतनः अवगढे सुदुष्पारम् शोक सागरम् अब्रवीत् राम शोक महावेग सीताविरह पारग कृषितोन्मी महावर्तो बाक्लवेग जलाविव बाहुवृक्षे पमीनोऽसौ विक्रन्दीत महासुनः प्रकीर्ण केशैवाल कैकै के के वडवामुख ममाश्रु वेग प्रभवै कुब्जा वाक्य महग्रह वरवेलो नृचुन्ताय रामप्रव्राजनायतः यस्मिन् भवतः निमग्नोऽहम् कौसल्ये राघवम् विन दुस्तरो जीवता देवी मयायम् शोकसागरः अशोभनम् योहमिहाद्य राघवम् दिदृश्यमाणो न लभे स लक्ष्मणम् इतीव राजा विलपन्मायश पपात तूर्णम् शयने स इति विलपति पार्थिवे प्रणष्ठे करुणतरं द्विगुणं च रामहेतो वचनमनुनिशम्यतस्य देवी भयमगमत् पुनरेव राम माता इत्याख्ये श्रीमन् रामायणे वाल्मीकि आदिकाव्ये योध्याकाण्डे एको ना षष्ठीतमः श्रीसीता रामचन्द्राणमास्तु